उषा व अश्व्य शिश सूर्यच्चुर्वातः प्राण्ञातमेश्वान संवत्सर आश्वस्त मेध्य से जो पृष्ठम्तरक्षदरम पृथिवी पाज से दिश पाशेदिशत साच पर्वाण्य होंष्ठा नक्षण्यस्थी न भो मान्यो व्य सिता सिंधवो गुदाचिच क्लोमान पर्वता ओषधयश्च वनस्पत लोम पूर्वाधनि लोचन जघनाध यद्जृ तद्विद्योतते यद्विधोनुते तत्स्तनयति यन्मेहति तद्वर्षति वागेवास्य वा अश्वं पुरस्तान्महिमान्वजायत तस्य पूर्वे समुद्रे यो निरात्रिरेणं पश्चान्महिमान्वजायत तस्यापरे समुद्रे योनिरेतौ वा अश्वं महिमानावभितः संबभूवर्हयो भूत्वा देवानवहद्वाजीगन्धर्वा नर्वासुरानश्वा मनुष्यान् समुद्र एवास्य बन्धुः समुद्र योनिः नैवेह किञ्चनाग्र आसीन्मृत्यो नैवेदमावृतमासीदशनायया शनाया हि मृत्युस्तन्मनोकुरुतात्मन्वीष्यामिति सोऽर्चन्न च रक्तस्यार्चत आपोजायन्तार्चते वैमेकमभूदिति तदेवार्कस्यार्कत्वं कग्रह हवा अस्मै भवति एवमेत तदर्कस्यार्कत्वम् वेदा आपो वा अर्कस्तद्यदपाज्ञेशर आसीत्तत्समहन्यत सा सत्रेधात्मानं यकुरुदादित्यं तृतीयं वायं तृतीयज्ञे स प्राणस्त्रेधा विहितस्तस्य प्राची दिक्षिरसौचासौचर्मावथास्य प्रचीची दिक् पुच्छमसौचासौ च सख्यौ दक्षिणा चोदीची च पार्श्वे द्योत्पृष्ठमन्तरिक्षमुदरमियमुरः स एष सुप् प्रतिष्ठितो यत्र क्वचैति तदेव प्रतितिष्ठत्येवं विद्वा सोकामय तद्वितीयो मत्मा जायेतेति स मनसा वाचं मिथुनग्ने समभवदशणाया मृत्युस्तद्यद्रेत आसीत् ससंवत्सरो भवन्नः पुराततः संवत्सर आसतमेतावन्तं कालमविभः त्सरस्तमे तावतः कालस्य परस्तादशि जततञ्जातमभिव्या ददात् स भाणकरोत्सैव भागभवते स ऐक्षत यदि वा इमभिमग्नस्ये कनीयोऽन्नङ्करिष्य इति स तया वाचा तेनात्मनेरग्ने सर्वमसृजत यदिदं किञ्चो ययो सामानि छन्दाज्ञान्प्रदाः पशून् स यद्यदेवासृजत तत्तदत्वमध्रियत सर्वं वा अत्येति तददितेरदिति त्वज्ञे सर्वस्य ीतस्यात्ता भवति सर्वमस्यान्नं एवमेतददितेरदितित्वं वेदा सोकामयत भूयसा यज्ञेन भूयो यजे येति सोऽश्राम्यत्स तपोतप्यत तस्य श्रान्तस्य तप्तस्य यशो वीर्यमुदक्रामत्प्राणा वै यशो वीर्यं तत्प्राणेषुत्क्रान्तेषु शरीरज्ञश्रयितुमध्यियत तस्य शरीर एव मन आसीत् सोकामयतमेद्ध्यं मयिदग् स्यात् त्मन्व्यनेन स्यामिति ततोऽश्वसमभवद्यदश्वत् तन्मेध्यमभूदिति तदेवाश्वमेधस्याश्वमेधत्वमेष वा अश्वमेधं वेदय एनमेवं वेदतमनवरुद्ध्यैवा मन्यतज्ञे संवत्सरस्य पदस्तादात्मन आलभत पशून् देवताभ्यः प्रत्यौहत्तस्मात् सर्वदेवत्यम् क्षिणं प्राजापत्यमालभन्त एष वा अश्वमेधो य एष तपति तस्य संवत्सर आत्मायमग्निरर्कस्तस्य मे लोका आत्मानस्तावेतावर्गाश्वमेधोऽसो पुनरेकैव देवता भवति मृत्युरेवाप पुनर्मृत्युं जयति नैनं मृत्युराप्नोति भवत्येता देवतानामेको भवति जनाः प्राजापत्या देवाश्चासुरास्त दे ततः कामीयसा एव देवाध्यायसा असुरास्त एषु लोकेष्वस्पद्धन्त तेह देवा ऊजुर्हन्तासुरान् यज्ञमुद्गीतेनात्ययामेति ेहवाचमूचुस्त्वन्नवृगायेति कथेति तेभ्यो वा दुददा यद्यो वाचि भोगस्तं देवेभ्य रायद्यत्कल्याणं वदति तदात्माने ते विदुरनेन वैनदुर्गात्रात्येष्यन्तीति तमभिद्रुत्यपात्मना विध्यन् स यः सपात्मा दे य देवेदमप्रतिरूपं वदति atma अथः प्राणमोचस्त्वम् न उद्ग्रायेति तथेति तेभ्यः प्राणमुददा यद्यः प्राणे भोगस्तम् देवेभ्य आगायद्यत्कल्याणम् जिघ्रति विदुरनेन वै न उद्ग्रात्रात्येष्यन्तीति तमभिद्रुत्यपात्मनाविभ्यन् स यः एव समात्मा अथः चक्षुरो चन्नबुद्रायेति तथेति तेभ्यश्चक्षुरुदया यद्भ्यश्चक्षुषि भोगस्तम् देवेभ्य आजायद्यत्कल्याणम् पश्यति तदात्माने ते विदुरनेन वैनवृद्रात्राद्येष्यन्ति मभिदृत्यरात्मना विध्यन् स यः स आत्मा यदेवेदमप्रतिरूपम् पश्यति स एव अथ श्रोत्रमोचुस्त्वं न उद्गायेति तथेति तेभ्य श्रोत्रमुदगायद्य श्रोत्रे भोगस्थं देवेभ्य आरायद्यत्कल्याणज्ञे शृणोति तदात्मने ते विदुरनेन वैनमुद्ग्रात्राद्येष्यन्तीति तमभिवृत्यरात्मना विध्यं स यः स पाप्माय देवेदमप्रति रूपज्ञे शृणोति स एव सवात्मा अधः मन ऊचस्त्वं न उद्रायेति तथेति तेभ्यो मन उदरायद्यो मनसि भोरस्त्वं देवेभ्य आरायद्व्यत्कल्याणज्ञे सङ्कल्पयति तदात्माने ते विदुरनेन वैनमुद्ग्रात्रात्येष्यन्तीति तमभिद्रुत्यवात्मना विध्यन्स यः स पामाय सङ्कल्पयति स एव सपात्मीवमुखल् तादेवतास्पात्मभिरुपा सृजन्ेवमेणास्पात्मना बिध्यन् अथ हे ममासन्यम् प्राणमोचुस्तन्न उद्गायेति तथेति तेभ्ययेष प्राणमुदगायत्ते विदुरनेन वै न उद्गात् त्येष्यन्तीति तमभिद्वृत्यपात्मनाभिव्यप्सन् स यथाश्मानमृत्वा लोष्टो विद्भग्ने सेतैवज्ञे थैव विद्भग्ने समाना विश्वञ्च विनेशुस्ततो देवा अभवन् परासुरा भवत्यात्मना परास्य द्विषन् भागल्यो भवति य एवं ेहोचुह्नुसो भूद्यो न इत्थमशक्तेत्ययमास्येन्तरिति सो यास्य आङ्गिलसोङ्ग्राणाग्नेहिरसः सा वा सा वा एषा देवतै तासां देवतानां पाप्मानं मृत्युमपहत्य यत्रा सा दिशामन्तस्तद्गमयाञ्चकार तदासाम् पाप्मनोभिन्यदधा तस्मान्नजनमियान्नान्तमियान्नत्वाप्मानं मृत्युमन्ववायानीति सा वा एषा देवतै तासां देवतानाम् आत्मानं मृत्युमवहत्याथैनां मृत्युमत्यवहते स वै वाचमेव प्रथमामत्यवहत् सा यथा मृत्युमत्यमुच्यतसोऽरभवत्सोऽयमग्निः दीप्यते अतथ प्राणमत्यवहत्स यदा मृत्युमत्यमुच्यत स वायुरभवत्सोऽयम् वायुः परेण मृत्युमतिक्रान्तः पवते अथ चक्षुरत्यवहत्तद्यदा मृत्युमत्यमुच्यत स आदित्योभवत्सोऽसावादित्यः परेण मृत्युमतिक्रान्तस्तपति अथ अथमदोत्यवहत्तद्यदा मृत्युमत्यमुच्यत स चन्द्रमा अहवत्सो यो चन्द्रः परेण मृत्युमतिक्रान्तो भात्येवहवायेन मेषा देवता मृत्युमतिवहति य एवम् वेदा अथात्मनेनाद्यमागायद्यद्धि किञ्चान्नमद्यतेनेनैव तदद्यतैह प्रतिष्ठति ते देवा अभ्रुवन्ने तावद्वायिरज्ञे सर्वै यदन्नन्तलात्म आदासीरनुनोऽस्मिन्न आ भजस्येति ते वैमाभि संविशतेति तथेति तज्ञे समन्तं परिण्यविशन्त तस्माद्यगनेनान्नमत्ति तेनैतास्तृप्यन्ते भग्ने भवा येन स्वा अभिसंविशन्ति भक् स्वानाग्म्य श्रेष्ठः पुर एता भवत्यन्ना दोधिप्रतिर्य एवं वेदय उहैवं विलग्यस्वेषु प्रतिप्रतिर्बुभूषति न हैवारं भार्येभ्यो भवत्यथ य एवैतमनुभवति यो वैतमनुभार्यान् बुभूषति भवति सो यास्य आङ्गिरसोऽङ्गानाग्ने हि रसः प्राणो वा अङ्गानाग्ने रसः प्राणो हि वा अङ्गानाग्ने रसस्तस्माद्यस्मात् कस्माच्छाङ्गात् प्राणवुत्क्रामति तदेव चक्षुषक्त्येष हि वा अङ्गानाग्ने रसः एष उयेव बृहस्पतिर्वाग्मै बृहती तस्या एष पतिस्तस्माद् बृहस्पतिः एष उयेव ब्रह्मणस्पतिर्वाग्मै ब्रह्म तस्या एष पतिस्तस्मादु ब्रह्मणस्पतिः एष उयेव सामवाग्वै सामेष सा चामश्चेति तत्साम्नः सामत्वं यद्वेव समवृषिणा समो मशकेन समो नागेन समयेभिस्त्रिभिर्लोकैः समोऽ सर्वेण तस्माद्वेव सामाश्नुते साम्नः सायिज्वज्ञे स लोकताय एवमेतत्सामवेदा एष उ वा उद्गीथः प्राणो वा उत्प्राणेन हि लग्ने सर्वमुत्तम् वागेव गीथोर्च गीता चेति स तद्धापि ब्रह्म दत्तश्चैकितानेयो राजानम् भक्षयन्नुवाचायन्त्यस्य राजानो धानम् विपातयताद्यदि चो यास्य आङ्गिलसौन्येनो ददायदिति वाचा चक्येव वा सप्राणेन चोददायदिति तस्य है तस्य साम्ना यस्वं वेलवति हास्यस्वं तस्य है स्वर एव स्वं तस्मादात् तिज्यं करिष्यन् वाचि स्वरमिच्छेदतया वाचा स्वरसम्पन्नयात् स्वरवन्तं दिदृक्षन्त एवाथो यस्य स्वं भवति भवति हास्यस्मेव मेलत् वेद तस्य हि तस्य साम्नो यः सुवर्णम् वेद भवति हास्यसुवर्णम् तस्य वैश्वर एव सुवर्णम् भवति हास्यसु वर्णय एवमेतत्साम्नः सुवर्णम् वेद तस्य वै तस्य साम्ना यः प्रतिष्ठां वेदप्रतिहतिष्ठति तस्य वै वागेव वा प्रतिष्ठा वाचिः खल्वेषये तत्प्राणः प्रतिष्ठितो गीयतेन्न थातः पवमानानामेवाभ्यारोहसवि खलु प्रस्तोतासामप्रस्तौति स यत्र प्रस्तुयात्तदेतानि जपे दशतो मा सद्गमय तमसो माज्योतिर्गमय मृत्योर्मा मृतङ्गमयेति स यदा हासतो मा सद्गमयेति मृत्युर्वा असत्सदमृतं मृत्योर्मा मृतङ्गमयामृतं मा कुर् ित्ते वै तदाह तमसो मा ज्योतिर्गमयेति मृत्युन्वै तमो ज्योतिर्मृतं मृत्योन् मा तदाह मृत्यो मा मृतङ्गमयेति प्रतिरोहितमिवास्त्यथयानि कराणि स्तोत्राणि तेष्वात्मनेन्नाद्यमागाये तस्मादु तेषु वरं वृणीतयङ्कामं कामयेतज्ञे स एष एवं विदुदातात्मने वा यजमानाय वा यङ्कामं कामयते तमागायति तद्धैतल्लोकजिदेवनाहैवालोक्यताया आशास्तमेत साम वेद आत्मैवेदमग्र आसीत्पुरुषविध सोऽनुवीक्षणान्यदात्मनोऽपश्यत्सोऽहमस्मीत्यग्रें याहलत्ततोऽहन्नामाभवत्तस्मादप्ये गर्ह्यामन्त्रितोऽहमयमित्येवाद्रवुग्धान्यन्नाम प्रब्रूते यदस्य भवति स यत्पूर्वोऽस्मात् सर्वस्मात् सर्वा मन औषत्तस्मात्पुरुषभोषति ह वै सति योऽस्मात् पूर्वो बुभूषदि य एवं वेद विभेति भेत्तस्मादेकाकी बिभेति सहायमीक्षाञ्चक्रेयन्मदन्यन्नास्ति कस्मान् बिभेमेति तत एवास्य भयम् वीयाय कस्माद्ध्यभेष्यद्वितीयाद्वैभयम् भवति सवैनैवरे मे तस्मादेकाकीन रमते सद्वितीयमैत्सत्सहैतावानाश यथा स्त्रीपुमागसौ सम्परिष्वक्तो स इमामेवात्मानं वेधा पात यत्ततः पतिश्च पत्नी चा भवतां तस्मादिदमध्यमिव दा स्व इति भस्माहयाज्ञवल्क्यस्तस्मादयमाकाशस्त्रियापु र्यत एव ताग्ने समभवत्ततो मनुष्या अजायन्ता सोऽहेयमीक्षाञ्चक्रे कथं ममात्मन एव जनयित्वा सम्भवति हन्तति रोषानीतिसा गौरभवृषभ इतरस्ताज्ञे समेवाभवत्ततो गावो जायन्त परबेतरा भवदश्ववृष इतरो गर्दभीतरा गभ इतरस्ताज्ञे समेवाभवत्तत एकशपमजायता जेतरा भवत् स्त इतरो विरितरामेश इतरस्ताज्ञे सर्वेवाभवत्ततो याभयोजायन्तैवमेव यदिरम् किञ्च मिथुनमापि पीडिकाभ्यस्तत्सर्वमसृजता सो वेदहं वावसृष्टिरस्म्ये हिरज्ञे सर्वमसृक्षीति ततः सृष्टिरभवत्सृष्ट्या ज्ञेहासी तस्याम् भवति य एवं अथेभ्यमंथ स मुखाच यो निर्स्ता तस्तुभयोमकम लोमकातस्तमाहुरमिरा मेरे देश में तसृष्टिेश्य अथ यकंचेद्रेतसो सृज तद् सोम एतावद्वा इदज्ञे सर्वमन्वन् चैवान्नादश्च सोम एवान्नमग्निरन्नादः सैषा ब्रह्मणोऽतिसृष्टिरियच्छेयसो देवानसृजथाथयन्मत्यः सन्नमृता न सृजत तस्मादतिसृष्टिरतिसृष्ट्या ज्ञास्य तस्याम् भवति य एवं वेदा तद्भेदन्तर्यं व्याकृतमासीत् तन्नामरूपाभ्यामेवं या क्रियतासो नामायमिदज्ञ रूप इति तदिदमप्ये तर्हि नामरूपाभ्यामेवं या क्रियतेऽसौ नामायमिदज्ञरूप इति स केशैः प्रविष्ट आनकाभ्यो यथाक्षुरक्षुरधानेव हि तस्याद्विश्वम्भरो वा विश्वं तन्न पश्यन्त्य हि स प्राणे प्राणो नाम भवति वदन्वा पश्यग्निश्चक्षुशृण्वन् श्रोत्रं मन्वा नो मनस्तान्यशीतानि कर्मणान्येव स योत एकैकमुपास्तेन स वेदा कृत्स्नो ह्येशोत गृह्येते सर्व एकम् भवन्ति तदेतत्पदनियमस्य सर्वस्य यदयमात्माने नह्येतत् सर्वम् वेद यथाह वैपदेनानुविन्दे विन्दते एवम् वेदा भवेतत्प्रेयः पुत्रात् प्रेयो वित्तात् प्रेयोन्यस्मात् सर्वस्मादन्तरतरैयरयमात्मा सयोऽन्यमात्मनः प्रियं ब्रुवाणं ब्रूयात् प्रियज्ञे रोचतीतिश्वरोह तथैव स्यादात्मानमे भवियमुपासीतसयात्मानमे भवप्रियमुपास्वे नः स्य प्रियम् प्रमायुकं भवति तदाहुर्यद्ब्रह्मविद्यया सर्वं भविष्यन्तो मनुष्या मन्यन्ते किमु तद्ब्रह्मा वेद्यस्मा तत्सर्वमहरि ब्रह्म वा इदमग्र आसीत्तदात्मानमेवा वेदहं ब्रह्मास्मीति तस्मात् तत्सर्वमभवत् तद्यो देवानां प्रत्यबुध्यत स एव तदभवत् तथ तथा मनुष्याणां तद्धैतत्पश्यन्ति शुर्वामदेवः प्रतिवेदेऽहं मनुरभवग्ने सूर्यश्चेति तदि इदमप्येतर्हि य एवं वेदाहं ब्रह्मास्मीति स इदग्ने सर्वं भवति तस्या न देवाश्च नाभूत्या ईशत आत्मा केषाग्ने स भवत्यथयोऽन्यान् देवतामुपास्तेऽन्यो सावन्योऽहमस्मीति न स वेद यथा पशुरेवज्ञे सदेवाना देवाना यथाहवैव वः पशवो मनुष्यं भुञ्जुरेवमेकैकः पुरुषो देवान् भुनक्त्येकस्मिन्नेव पशवानीयमाने प्रियं भवति किमु बहुषु तस्मादेषान् तन्न प्रिय यदेतन्मनुष्या ब्रह्मवायिलमग्र आसीदेकमेव तदेकज्ञे सन्नव्यभवत्तच्छ्रेयो रूपमत्र सृजसक्षत्रैयानि देवत्रा क्षत्राणि वरुणः सोमोरुद्ब्रह्पद्यन्यो यमो मृत्युलैशाम इति तस्मात् क्षत्रात् परन्नास्ति तस्मात् ब्राह्मणक्षत्रियमधस्तादुपास्ते यसूये क्षत्र एव तद्यशोदधाति सैषा क्षत्रस्य योनिर्यद्ब्रह्म तस्माद्यपि राजा परमताञ्ज्रह्मैवान् तत उपनिश्रयति स्वा योनि यौ येन गृहिनस्ति स्वाग्य स योनिमृच्छति स पापीयान् भवति यथा श्रेयाग् स ग्रेहि ज्ञसित्वा स नैवव्यभवत्स विषमसृजत यान्ये तानि देवजातानि गणश आख्यायन्ते वसवो रुद्रा आदित्या विश्वे देवामरुत इति स नैवव्यभवत्स शौर्यं वर्णमसृजतपूषणमियं वै पूषे यज्ञे हिरज्ञे सर्वं पुष्यति यदिदं किञ्च स नैवं व्यभवत्तच्छ्रेयोरूपमत्त्व श्रजतधर्मं तदेतत्क्षत्रस्य क्षत्रै यद्धर्मस्तस्माद्धर्मात् सते धर्मेण यथा राज्ञै वै यो वै स धर्मः सत्यं वै तत्तस्मात् सत्यं वदन्तमाहुर्धर्मं धर्मं वा वदन्ति न्तज्ञे सत्यम् वदतीत्येतद्ध्येवैतलुभयम् भवति देव तद्ब्रह्मक्षत्रं विक्षूद्रस्तलग्निनैव देवेषु ब्रह्मा भवद्ब्राह्मणो मनुष्येषु क्षत्रियेण क्षत्रियो वैश्येन वैश्यशूद्रेण शूद्रस्तस्मादज्ञावेव देवेषु लोकमिच्छं ते ब्राह्मणे मनुष्येष्वेताभ्राह्भ्यां ब्रह्मा भवदथयो ह स्माल्लोकात् स्वल्लोकमदृष्ट्वा प्रैतिविदितो न पुनक्ति यथा वेदो बालोक्तोवा कर्म कृतवाप्यनेवं विन्महः पुण्यं कर्म करोति तद्धा स्यान्ततः क्षीयत एवात्मानमे बलोकमुपासीतस य आत्मानमे क्षीयते स्माद्येवात्मनो यद्यत्कामयते तत्तत्सृजते अथो अयम् आत्मा सर्वेषाम् भूतानाम् लोकस्य यद्युहोति यद्यजते तेन देवानां लोकोऽखयदनुब्रूते तेन ऋषीणामथ यत्पितृभ्यो निकृणाति ते यत्प्रजानिच्छते तेन पितॄणामथ यन्मनुष्याद्वासयते यदेभ्यो शनं ददाति तेन मनुष्याणामथ यत्पशुभ्यस्तृणादकं विन्दति तेन पशूनां यदस्य गृहेषु श्वापदाव याज्ञस्यापि पीलिकाभ्य उपजीवन्ति तेन तेषालोको यथाह वै स्वायलोकायालिष्टिमिच्छेदेव गेहैवम् विदे सर्वाणि भूतान्यष्टिमिच्छन्ति आ मयि वेदमग्र आसीदेक एव शोकामय कायामे स्यादथ प्रजाये याथ वित्तं मे स्यादथ कर्म कुर्वीयेत्येतावान् वै का मोनेच्छ गश्च नातो भूयो विन्दे तस्मादप्येतर्ह्ये काकी कामयते जायामे स्यादथप्रजाये याथवित्तं मे स्यादथ कर्म कुर्मी एति स यावदप्येतेषा मे कैकं न प्राप्नोत्य कृत्स्न नुषम् वित्तं चक्षुषा हि तद्विन्दते श्रोत्रं दैवज्ञः श्रोत्रेण हि तत् श्रोत्यात्मैवास्य कर्मात्मना हि कर्म करोति सर्वै यदिदं किञ्च तदिदग्ने सर्वमात्नोति य एवं यत्सप्तान्नानि मेधया तपसाधनयत् पिता एकमस्य साधारणम् वेदेवानसादयति त्रीण्यात्मने कुरु तपशुभ्य एकम् प्रायच्छति तस्मिन् सर्वम् प्रतिष्ठितम् यच्च प्राणिति सर्वदा यो वैनामक्षिणम् वेदसोन्नमत्तिप्रतीकेन स देवानपि गच्छति स ऊर्जमुपजीवतीति श्रोताः यत्सप्तान्नानि मेधया तपसादनयत् पितेति मेधया हि तपसादनयत्पितैतमस्य साधारणमिति दमेवास्य तत्साधारणमन्नै यदिदमध्यते स यमेतदुपास्तेन सपाह्मनोऽत्तदेश्रज्ञेतद्वे देवानभाजयरिति दे हुतं च प्रभुतं च तस्माद्देवेभ्यो जुह्वति च प्रजुह्वत्यथो आहुर्दर्शपूर्णमासाभिति तस्मान्नेष्टि याजुकस्यात् पशुभ्य एकं प्रायच्छदिपयः पयो ह्ये वा प्रेमनुष्याश्च पशवश्चोपजीवन्ति तस्मात् कुमारञ्जातं घृतं वैवाग्रे प्रतिलेहयन्ति स्तनं वानुधापयन्त्यथवत्सञ्जातमाहुर तृणाद इति तस्मिन् सर्वं प्रतिष्ठितै यच्च प्राणिति यच्चेति पयसि हि लग्ने सर्वं प्रतिष्ठितै यच्च प्राणिति यच्च न तद्यदिदमाहः संवत्सरं पयसा जुह्वदपपुनर्मृत्युं जयतिरि न तथा विद्याद्यदहरे वजुहोति तदपः पुनर्मृत्युमपजयत्येवं विद्वान् सर्वज्ञे हि देवेभ्यो नाद्यं प्रयच्छति कस्मात् तानि न क्षीयन्ते ज्यमानानि सर्वदेति पुरुषो वा अक्षितिस्सहलमन्नम् पुनः पुनर्जनयते यो वैतामक्षितिं वेदेति पुरुषो वा अक्षितिस्सहलमन्नन्धिया धिया जनयते ेप्येतत्सदेवानपि गच्छति स ऊर्जमुपजीवतीति प्रशन्सा ीण्यात् मने कुरुतेति मनोवाचम् प्राणन्तान्यात् मने कुरु तान्यत्र मना अभूवन्नादर्शमन्यत्र मना मनसा ह्येव पश्यति मनसा शृणोति सामः सङ्कल्पो विकित्सा श्रद्भातिरधिर्हीर्धीर्भिरित्येतत्सर्वम् मन एव पृष्ठतपस्पृष्टो मनसाभिधानादि यः कश्च शब्दो भागेव सैषा ह्यन्तमा यत्तैषा हि न प्राणोपाणो यान उदानः समानो न वा अयमात्मा वाङ्मयो मनोमयः त्रयो लोका एत एव वा रेवायल्लोको मनोऽजरिक्षलोकः प्राणोऽसौ लोकः त्रयो वेदा एत एव भागेवग्वेदो मनो यजुर्वेदः प्राणः सार्वेदः देवाः पितरो मनुष्या एत एव वागेव देवामनः पितरः प्राणो मनुष्याः पिता माता प्रदयित एव मन एव पिता माता प्राणः प्रजा विज्ञातम् विजिज्ञास्यमविज्ञातमेत एव यत्किञ्च विज्ञातम् वाचस्तद्रूपम् बाघ्रिविज्ञाता भागे भागेन तद्भूत्वा यत्किञ्च विधिज्ञास्यम् मनसस्तद्रूपम् मनो हि विजिज्ञास्यम् मन एनम् तद्भूत्वावति यत्किञ्चाविज्ञातम् प्राणस्य तद्रूपम् प्राणोह्यविज्ञातः प्राण एनम् तद्भूत्वावति तस्यैवाचः पृथिवी शरीरं ज्योतिरूपमयमज्ञस्तवत्येव वाक्तावती पृथिवी तावानयमग्निः अथैतस्य मनसो द्यौ ज्यो शरीरम् ज्योतिरूपमसावालित्यस्तद्यावदेव मनस्तावती द्यौ ज्यो स्तावानसावालित्यस्तौ मिथुनग्रे समेता ततः प्राणो जायत स इन्द्रः स एषो स पत्नो द्वितीयो वै स पत्नो नास्य स पत्नो अथैतस्य प्राणस्यापशरीरं ज्योतिरोपमसौ चन्द्रस्तज्यावानेप प्राणस्तावत्य आपस्तावानसौ चन्द्रस्त एते सर्व एव समाः सर्वेऽनन्ताश्च यो हैतानन्तवत उपास्तेन्तवन्तज्ञे स लोकञ्जयत्यथ यो हैताननन्तानुपास्तेनन्तज्ञे स लोकञ्जयति स एष संवत्सरः प्रजापतिः षोडशकलस्तस्य रात्रय एव पञ्चदशकला ध्रुवैवास्य षोडशीकला च रात्रिभिरवाच पूर्यते पच सर्वमिदं प्राणभृद न त्रिम् प्राणभृतः प्राणन्न विच्छिन्द्यादपि कृतला सस्यी तस्या एव देवताया अपचित्यै यो वै स संवत्सरः प्रजापतिषोडशकलोयमेव स योयमेवंवित्पुरुषस्तस्य वित्तमेव पञ्चदशकला नैवास्य षोडशी कला स वित्ते नैवाचकूर्यते पच क्षीयते तदेतन्नभ्यञ यदयमात्मा प्रथुर्वित्तं तस्माद्यपि सर्वज्ञानञ्जीयतमात्मना धिनागाहु अथ तयोवलोक मनुष्यलोक पितृलोको देलोक सोय मनुष्यलोकेण्व्यो नाम कर्मण कर्मण पितृलोको विद्य देलोको देलोको वै लोकानाश्रेष्ठस्तियाे सती अथातः सम्प्रतिर्यथा प्रैष्यन्मन्यतेथ पुत्रमाहत्वं ब्रह्मत्वं यज्ञस्त्वं लोक इति स पुत्रः प्रत्याहाहं ब्रह्माहल्यज्ञाहं लोक इति यद्वैकिञ्चानोक्तं ये तस्य सर्वस्य ब्रह्मेत्येकतायै वैके च यज्ञास्तेषाज्ञ सर्वेषां यज्ञ इत्येकतायै वैके च लोकास्थे सर्वेषां लोक इत्येकथैतावद्वा इदज्ञे सर्वमे तन्मा सर्वज्ञ संनयमितो पुनरीति तस्मात् पुत्रमनुशिष्टं लोक्यमाहुस्तस्मादेन मनुशासति स यदैवं विदस्माल्लोकार्थैत्यथैभिरेव प्राणैः सह पुत्रमाविशति स यज्जनेन किञ्चिदक्षयाकृतं भवति तस्मादेन सर्वस्मात् पुत्रो मुञ्चति तस्मात् पुत्रो नाम सपुत्रेणैवास्मिल्लोके प्रतितिष्ठत्यथैनमेते दैवाः प्राणा अमृता आविशन्ति पृथिव्यै चैनमग्नेश्च दैवीवा गाविशति सा वै दैवीवाज्ञया यद्यदेव वदति तत्तद्भवति दिवश्चैनमादित्यार्च देवं मन आविशति देवं मनो येनानन्द्येव भवत्यथो न नशोचति अभ्यश्चैनं चन्द्रमसश्च दैवः प्राण आविशति स वै दैवः प्राणो यः सञ्चरज्ञश्चा सञ्चरज्ञश्च न व्यथतेथो न रिष्यति स एवंवित् सर्वेषां भूतानामात्मा भवति यथैषा देवतैवज्ञे स यथैतान्देवताज्ञे सर्वाणि भूतान्यवन्त्येव गेहैवं विदज्ञे सर्वाणि भूतान्यवन्त यद् किञ्चे मास्त तद्भवति पुण्यमेवामुङ्गच्छति नः वैदेहान् गच्छति तोमाग्ने सा प्रजापतिर्ह कर्माणि स सृजेतानि सृष्टान्योन्येनास्पद्धं तदिश्याम्येवाहमिति वाग्दध्रे द्रक्ष्याम्यहमिति चक्षुश्रोक्ष्याम्यहमिति श्रोत्रमेवमन्यानि कर्माणि यथा कर्म तानि मृत्युश्रमोऽ भूपयेमेतान्याप्नोत्तानि ्याप्त्वा मृत्युरवारुन्ध तस्माच्छ्राम्यत्येव वा शाम्यति चक्षुश्राम्यति श्रोत्रमथे मम योऽयं मध्यमः प्राणस्तानि ज्ञातुं वैनश्रेष्ठो यः सञ्चरग्यष्टा सञ्चर ग्यष्टनं व्यथतेथो न ऋष्यति हन्तास्यैव सर्वे सर्वे रूपमभवज्ञस्तस्मादेत एतेनाख्यायन्ते प्राणा इति तेन हवावदत्कुलमाचक्षते यस्मिन् कुले भवति य एवं अथाधिदैवतञ्ज्वलिष्याम्येवाहमित्यज्ञे तप्स्याम्यहमित्यादित्यो भास्याम्यहमिति चन्द्रमा एवमन्या देवता यथा दैवतज्ञथैषां प्राणानां मध्यमः प्राण एवमेतासां देवतानां वायुं रोचन्ते ह्यन्या देवता न वायुः सैषानस्तमिता देवता यद्वा आय <sweep> अशेष श्लोको भवति यतश्चो देति सूर्योऽस्मै यत्र च गच्छतीति प्राणाद्वा एष उदेति प्राणेस्तमेति तं देवाश्चक्रे धर्मग्ने सदेवाद्य स उष्व इति यद्वा एते मुह्यध्रियं तदेवा यद्य कुर्वन्ति तस्मादेकमेव व्रतं चरेत् प्राण्याच्च च मेन्मा पाप्मा मृत्युराप्नुवदिति यद्युच्चरेत् समापि पैषेत्तेनो एतस्यै देवतायै सायुज्जज्ञे सलोकताञ्जयति त्रयं वा इदम् नामरूपं कर्म तेषां नाम्नां नाम वा हि सर्वाणि नामान्यष्ठन्त्येतदेषाज्ञ सामैतद्धि सर्वैर्नामभिः सममेतदेषां ब्रह्मैतद्धि सर्वाणि नाम नामानि विभक्ति तदेशा अथ रूपाण चक्षुरदाथम तोि सर्वाण्यूपाषंसेते तदेशा सामि सर्व रूप सदा ब्रह्मि सर्वाण्यूपाण्य विभक्ति अथ कर्मणामात्मेत्येतरेषामुत्थमतो हि सर्वाणि कर्मान्यत्तिष्ठन्ते तदेषामै दि सर्वैः कर्मभिः सममेतरेषां ब्रह्मैदधि सर्वाणि कर्माणि विभक्ति तदेतत्र यज्ञे सदेकमयमात्मात्मा एकः सन्नेतत्रयं सत्येन छन्नं प्राणि ो वा अमृतन्नामरूपे सत्यन्ताभ्यामयम् प्राणश्छन्नः ओ इति प्रथमोऽध्यायः